अहं uh... <laughs> उत्सन्न निज्ञो वा नज्ञः किम्बाभेतश्च क्रियते किम्बा नै यज्ञश्च क्रियमाणस्यान्तरयन्ति पूजति वानस्तिराश्विनैरुपदधा यश्विनौ वेदेवानाम्भेडजङ्करोधिपञ्चोपदधातिमान्तो निज्ञो यावानेव यज्ञस्तस्मै भेणजङ्करो त्रिभव्या उपदधात्रिलोनाय पञ्चमपदधाति पञ्चमा ऋतभो यावन्तस्ताङ्कल्पयति समानप्रभदो दर्कास्तस्मात् समाना ऋतम एकेन पदेन व्यावर्तन्ते तस्मा व्यावर्तन्ते प्राणभृतमुपदधातभो न वायुर्यत् प्राणो यतव्यामुपधाय प्राणभृतमुपदारितस्मात् सर्वानृतो ननु वायुरापरि वर्ति वृष्टिधनेन पदधा वृष्टिमेवावन्धे कथोपदध्यादेकभृतम् वर्णे खल्वो नाना व्रथास्तेभेवाभितमलसोऽयम् कामगे प्रापयु स्यादिति वयस्या तस्यापधायापस्या उपदध्यातसम् ज्ञानमेवाे पशुभिः कलोद्य पशुरेव भवशुवान्त्यपस्या तस्योपधाय वयस्या उपलब्ध्यात् सञ्ज्ञानमेवाशुभिः कलौति पशुमानेव भवति तस्य पुरस्तादुपदधाति तस्मात् चत्वारि चक्षुषो रूपाणि द्वे शुक्ले द्वे कृष्णे भो दन्वदे भवन्ति तस्मात् पुरस्ता दक्षिणा यागश्वान्यामुपधाति पञ्चोत्तरस्यां तस्मात् पश्चाद्मणः पशययिति दक्षिणे गुन्धमुपदधाति विष्कर्म युत्तरे दक्षिणे पक्षमुपदधातिभोपयित्युत्तरे पक्षगानेवर्यन् दधाति पुरुषोपयिति वर्ध्ये तस्मात् पुरुषः ो ना मध्ये मध्ये न्द्राग् अव्यधमानामिनिस्मजमातृन्नामपदधाते राज्ञाम्बायो लोकयामिधृत्या अधत भवा रैायन् मध्यमाचिनिरन्तरिक्ष प्रभवाय हैन्द्राग् मे नित्याहेम् राज्ञे मे देवानामोजोऽभारा मोज देवैनामन्तरिक्षिनत धृत्यै स्मर मातृन्नामपदधात्यम् न्तरिक्षं वै स्वयमातन्नान्तरिक्षमेवोपधत्ते स्वमुपघ्रापयति प्राणमेवास्यापत्य वा स्वप्रजापतिमेवाग्ना भवति प्राणानामुत्सृष्ट्या अथो सुवर्गस्थ लोकस्यानुख्यात्यै देवानां वै सुवर्गं पुरस्तादुपदधाति न वै पुरुष प्राणानाभिर्दशमे प्राणादेव पुरस्ताभे तस्मात् पुरस्तात् प्राणाद्योतिपदेव उत्तमामुपदधाति तस्मात् प्राणानाम् जोजाक्ष जोस्ता प्रस्ताग पशुष्पा जमा पश्चंदे तस् दक्षिण मृत गे छंद ष्ठित्या अग्निर्देवनेऽत्युत्तरतवोजो वा अग्निनो जगेवोत्तरतो झे तस्मादुत्तरतोऽभिप्रयागी ते निषत्रिविंशत्सम्पद्यन्ते छत्रिविंशदक्षेवा ृहत्यैवास्मै वसो न परन्धे बृहदेश स्वाराया यस्यैता उपधीयम् ते गच्छति स्वाराज्यम् सप्त वा नुपदधाति सप्त पश्चात् सप्तवेशे शिल्याः प्राणाद्वाववाञ्जो प्राणानाकुम् सवेर्यत्वाय मोर्धाधिराणि पुरस्तादुपदधायन्त्रे राणि पश्चात् प्राणा ने वास्तव में सभी जो तथाती यद्यज्ञे कुर्म ताव कुर्म ते देवायेता अक्षया स्तोमीयापश्यन्ता अन्यथा नो चान्यथोपु आनान्भवायन्तो देवान्मरा सुरक्षया स्तोमीया अन्यथा नो चान्यथोपदथा निभ्रातया भवत्यात्मनापरास्य भ्रातृ भवत्यादुपदधा द पुर्याप्तदशेत्युत्तरदोजो भान्त भोजः पञ्चदश भोजनेवोत्तरतो धत्ते तस्मादुत्तरतो पुरस्तादुपदधा यज्ञमुखे वियाजयत्यभिमर्तस्य विपुंसयति दक्षिणतोन्नं वा अभिमर्तान्नस विपुंसान्नमेव दक्षिणतो धेतस्मात् दक्षिणे धान्न भद्यते वर्चोद्वाभिंशयति पश्चाद्यद्विगुंसजद्वैतेन विराजो यद्वैत प्रतिष्ठातेन विराजो देव इत्युत्तरस्तस्मात् सव्यस्तयोस्तपस्वितरो योश्चतुर्विपुंशयति पुरस्तादुपदधाति बोधस्तृणभयति पश्चादिमेवे लोकास्त्रिणभयेष्वेव लोकेभुनिष्ठति सम्भरणस्त्रयो विपुंशयत्युत्तरतस्तस्मात् संयोहस्तयो सम्भार्यतरः कृतुवेगस्त्रिपुंशैः पुरस्तादुपदधाति वा यज्ञमुखम् भाग्यज्ञमुखमेव पुरस्ताद् विजादयति भध्रश्च विष्टपञ्चतुस्त्रिपुंशैति दक्षिणतोदौवादिश्च भ्रस्य विष्टव ब्रह्म दक्षिणतो धेतस्माद् दक्षिणा ब्रह्मवत् प्रतिष्ठात् प्रयस्त्रिकुम्जयति पश्चात् प्रतिष्ठच्छे नागश्च त्रिकुम्शयच्छुत्तरदस्तु भर्गो मे लोको नागस्तु भर्गस्य लोकस्य समस्यै अग्ने भागो देति पुरस्तादुपदधायज्ञ मुखम् वा अग्नियज्ञमुखम् धेक्षारज्ञ मुखम् ब्रह्म यज्ञमुखम् द्रवत्यज्ञ पुरस्ताद् विजातयति नृजक्षसा भागो देति दक्षिणत शुश्रुवागम् सौमे नृत्यक्षताम् न जाता जाता यैवास्मा न्नकं सप्तदशोऽन्नेव दक्षिणतो धत्ते तस्माद्धिणेनान्न मध्यते मित्रस्य भागो जेति मष्टा प्राणो वे मित्रापा वरुणः प्राणापाना वैवास्मिन् त्रभोजः पञ्चदशभोजरेवोत्तरतो तर धत्तस्मादुत्तरतोऽभिप्रया ये जयति वसूनां भागो सेज पुरस्तादुपदधारज्ञो यज्ञमुखगौरुद्रा यज्ञमुखम् चतुर्भिंशा यज्ञमुखमेव पुरस्ताद्ययादयत्यादित्यानाम् भागोऽसेति दक्षिणाम्बादित्याम् मरुतोन्नं पञ्चविगुंश न्नमेव दक्षिणतो धत्ते तस्माद् दक्षिणेनान्न मध्यदे चित्ते भागोऽसिमश्चाप्रतिष्ठा वा अदिदः प्रतिष्ठा भूषा प्रतिष्ठात् नमः प्रतिष्ठित्ते देवस्य च विदर्भागोऽ ब्रह्म मे देवस्थविदा ब्रह्म गृहस्पदे ब्रह्म च दष्टा वा ब्रह्मवर्ततमेवोत्तरतो ब्रह्मवर्शिलसा वित्रवदे भवे तस्माद् ब्राह्मणामुदीति सनि धर्तश्च दष्टो मयु पुरस्तादुपदधादि धर्तो यज्ञमुखम् च द्रष्टोमो यज्ञमुखमेव पुरस्तात् यावानां भागो देति दक्षिणतोमासा यावा अर्धमासा अयाभास्तक्षिणावतो मासा अन्नम् वै न्नमेव दक्षिणतो धेतस्माद् दक्षिणेनान्नवद्यतोऽस्मादिमौ लोकौ समापद्ये यस्य मुक्षपदे पुरस्तादुपधीयन्ते मुक्षयेव भवत्यास्य मुख्यो जायते यस्यान्नपते दक्षिणतो य देयस्य प्रतिष्ठावदे पश्चात्मत्येव तिष्ठते यस्यौजस्पदे नवोजस्येव भवत्या जायते को मालेदग्निष्ठस्यैतेवस्त्वात्म च्छस्त्रै यदेशा विधा विधीयते ग्रगेव तदर्थमनुविधीयते कर्म वास्यादो जायते यस्तेजा द्विधा विधीयते यौ चैनामेवं वेन कृष्णेनुपथा च यथा सृष्टमेवावरुन्धेन वा इदन्ति वानः क्रमाधेदव्यावृत्तञ्च देवा पश्यन्ता उपादश ततो वाैता उपधीयन्ते थोतम अग्नेता प्रणुधान सप्नि पुरस्तापावत प्रणुदे सहसा जाता पश्चाश्य प्रतिदेक्ता मयि दक्षिणता ब्रह्मवत् कथं वेजश्चत्वारिकं स्व ब्रह्मवत् कथमेव दक्षिणतो धत्रे तस्माद् दक्षिणाद्वात् श्वोणसस्तो मयित्युत्तरतमो जोमेशो रसवोजयेवात्तरतो धत्त्वे तस्मादुत्तरतोऽभिप्रयागेज यदि वज्रोमेजश्चत्वारिकं स्व वज्रश्रोणसो जातायुश्चैव ज्यमाण धाति पुरेशं वे मध्यमात्मनस्तात्मानमेवाग्न ते सात्मामुष्कल्लाके भवति य एवं वेतावा समत्वायस्यैतामुपधीयन्ते नास्य समत्वा भवति वशुर्वा वेषयन् विराजमुत्तमायाञ्चत्यामुपधाति दश दशोपदारत्वागाः क्षयोपदधायस्मादक्षया वशवाङ्कानि प्रानन्ते प्रतिष्ठेया निवेन्दार्गाः ते देवास्तु वर्गं लोकमायन्ते तपोदप्यन्ततानि तपसा दृश्यन्ते भेदायुष्टायमिमते वक्षन्दो ेवन्दायते यजमानस्वभर्गण्जा असृजता स्तोमभावैरेवमभागावुपदधाय प्रजा एव तद्यजमानसृज देवर्वा वेतज्ञस्य तेजस्तमभरभ्योमभागाय धानि समेवाग्निर्वागेतान्यज्ञस्य प्रतिष्ठामपश्यमभागाय पमभागानुपदधानि यज्ञस्य प्रतिष्ठत्यै सप्त सप्तापदधानिश्वामध्ययम् प्रतिष्ठत्यै स्मरदेवादित्यमसुजधर्ममन्विरितिव सन्धिरत्यन्तरिक्षम् प्रविशरति पृथिवीम्भैज दृष्टम् प्रवेत्यहरणिभुजि दिवसोजरित्यादित्या प्रजायदि भगवम् देवयत्रौषधेन भिजिरषि युक्तग्रामेन्द्रायत्वेन्द्रम् जिन्वे एव दक्षिणतो र्योहदभिज्तेः प्रजा अवप्राणा असृजरताःत्येव प्राणवदधाद्यन्तेत्यपानगम् सगुं सोधाय स्वत्रन्ताः प्रजाप्राणते न बाणते पश्यन्ते शन्भतेर्न मिथुने अभवन्ता सत्रवदेत्येव मिथुनदधात्ताः प्रजा मिथुने भवन्तेर्णप्रायम् सगो प्राजनयत्ताः प्रजाः प्रजाताः प्रत्यतिष्ठन्तापसुको जिमेष श्रिरशिवस्य लोकेषु प्रत्यस्थापयद्यदाः पशुको जिमेषु शिवस्य चिरसेति प्रजा एव प्रजाता येषु लोकेषु प्रतिष्ठापयतिधा माक्षगौरोह दिस प्राणामुष्कल्लोके प्रतिष्ठत्यव्यर्धकः प्राणापानाभ्याम् भवति नाकसद् मे देवास्वर्गम् लोकमायन्तन्नाकसदान्नाकसत्वय्यन्नाकसद उपदधाय नाकसत्येव तद्यजमानस्वर्गम् लोकमे सुवर्गो मे लोको नागोयस्तेतावुपधीयन्ते नास्माकम् भवति यजमानायतनम् वेनाकसदो यन्नाकसदमुपदधायतनमेव तद्यजमानः कुरुते पृष्ठानाम् मा एतत् तेजस्तम्भतैयन्ना पदधातिपृष्ठानामेव ते चन्धे पञ्चचोषामुपदधा चरसगेवैनमेताभूतामुष्पन्दाकमुपसेदेथोतोपाले देवेताये देताभ्य एवं देवताभ्यावृष्टरिकाक्षत्युत्तरा यथा प्रागेव तस्मात् पश्चात् प्राणो सयवादण्णायुर्विकर्णे प्राणञ्चयुश्च प्राणामुत्तमो धत्ते तस्मात् प्राणश्चायुश्च प्राणानामुत्तमौ धान्यामुत्तरामिष्टगामुपदध्या जन्यामुत्तरामिष्टगामुपदध्यात्सोनाञ्जयमानस्य न प्राणञ्चायश्चापि दध्यात् तस्मान्नान्योत्तरेष्टगोपधेया स्वयमाधर्णामुपदधात्यसौ वये स्वयमाधर्णामो मेवोपधत्ते समघ्रा वयति प्राणमेवास्यापत्यो वा अश्वः प्रजापचने वा भवति प्राणानामुत्सृष्ट्या अथो सुवर्गस्य लोकस्यानुख्यात्याेषा मे देवानाम् विग्रान् तर् यद्वि गर्णे यद्धि गर्णे सुपदधाति देवानामेव देवा देवा विग्रान् देवा देवा देवा यमन विक्रमदमुत्तरदमुपदधाति तस्मादुत्तरद उपचारो छन्दाकस्य पदधाति पशवो वै छन्दागुं शिवशो नेवावरुन्धे छन्दागुं देवानां वामं पशवो वाममेव पशोनवरुन्धयेतागुं हवे यज्ञसेनश्चैत्र्याविनश्चितिं विदाञ्चकारत या वेश पशोनवरुन्धयते तामपदधाति पशोनैवावरुन्धे गायत्रे पुरश्चादिपदधाति ते यावे गायत्रे तेज भवन्ति मोर्धानेवैनगुंसमानाष्टु भवतीन्द्रियं वै चेन्द्रियमेव धत्ते जगतेरुपदधाति जागदा वै पशुः पशूनेवावृन्धे नृष्टुभौपधाति प्राणावानुष्ठु प्राणानामुत्सृष्टे बृहते रुष्ण्यः पङ्क्तेरक्षरपङ्क्तेरुविषुरूपाणि षण्भागस्युपद त्रिविषुरूपा वै पशवः पशुपच्छन्दागम् त्रिविषुरूपादेव पशूनपरुन्धे विषुरूपमस्य गृहे दृश्यते यस्यैता उपधीयन्ते यौ जैना एवम् वेदादिच्छन्द समुपदधात्यदिच्छन्दा वै सर्वाणि छन्दा सर्वेऽभिरेवैन्दाभिश्चिनुदेव स्मवादेशा छन्दसां यददिच्छन्दा यददिच्छन्द समुपदधा दिवस्मै समानाना दि उपदा दिपा जन प्रतिष्ठ्य वै देवताष्ठीयते यत्सयुजो नोपदभ्या देवता, देवता अस्याग्निम् वृञ्जेरणच्छयुज उपदधात्मनैवेन कुंसयुजम् च तेनाग्निनाथो यथा पुरुषस्नावभिः सन्तत एवमेवैताभिरग्निः सन्ततोग्निना वै देवाः सुवर्गम् लोकमायन्ता अमोः कृत्तिका अभवन यस्य उपधीयन्ते सुवर्गमेव लोकमेधिगच्छति प्रकाशञ्चित्रमेव भवति मण्डलेष्टका उपधातिमे वै लोकामण्डलेष्टका इमे खलु वै लोका देव पुरा देव पुरा एव प्रविशति नार्तिमार्चत्यग्ना विश्वज्योतिषमुपधातिमाने वेताभिर्लोकान् ज्योतिष्पदः कुरुते प्राणामेवेता युजमानस्य र्थदेता वेदेवतासुवर्ग्यास्तान् आरभ्य सुवर्गम् लोकमे दे वृष्टिसने रुपदधाति वृष्टिमेवावरुन्धे कथोपदध्यादे चमृतं वर्षे पर तनुपरिहारं जादयति तस्मात् सर्वाशतो न वर्षति पुलोपाहैतद्वै वृष्टेरूपगं रूपेणैव वृष्टिमवरुन्धे संयाने सर्वैदेवा इमान् लोकान् समयस्तत्संयाने नागुं संयानित्यं यत्संयानेरुपद्यायताप्ना ेवमेवैताभिर्यमान् लोकान्संज्ञातिप्लवोर्यत्संज्ञानेर्यत्संज्ञानेरुपदधातिप्लमेवैतमग्नयमुपदधा हृदयस्यैतासोपहितास्वापोऽग्रिगम् हरन्तस्याग्निरादित्यैकापदधात्यादित्यावाहेतम्भो ये प्रजनदन्ते न प्राप्नत्यादित्या एवम् भोधिम् गमयन्त्यसो वा एतस्याधित्य चमाधत्ययो गृचित्वा न रोचते यदाधित्यै प्रदा उपदधा य सावेवा गृह्णाधित्योर्चन् दधाति देवा नागम् रोचत एवमेवैष मनुष्यानागम् रोचते तदा उपदधा चेतद्वाग्नः प्रियन् मयद्धृतं प्रिय नैवैनन्धां समर्थयात्यं यशोदा अपश्यत्ता उपाधत्तताभिर्वैशेष आत्मन्न धत्र यद्यशोदाुपदधाति यश एवताभिर्विजमान आत्मन् धत्ते पञ्चोपदधातिपान्तः पुरुषो या वा न पुरुषस्थस्मिन् यशोदधाति देवा सुस्यम् यत्ता आसम् कनीयागुम्स देवा आसम् भो यागुम्स देवा एता इष्टका अपश्यन्ता उपाद्रूयः देवभूयागुम् स भवन् वनस्पतिभिलोषधे दर्वलिवस्तुसे देवालयम् प्राचे प्राचेम् दृशवयन्नोद्वासेत्यमोमजयन्नन्तरिक्षसदस्यन्तरिक्षय से यन्द क्षमजयन्ततो देवा भवान् परा सुरायस्यैतान् भवत्यात्मना परास्य भ्रातुर्य भवत्यक्षुषतृक्षेण सदसेत्याहैतद्वाग्नेरूपकं रूपेणैवाग्निमवंसे पृथिव्यामेत्या हेमानेवैताभिर्लोकान् त्रिविणावतः कुरु आयुष्यायुपुरधात्यायुरेवस्यन्दधात्यग्ने यत्ते परगुं हृन्नामेत्याहैतद्वाग्ने प्रियं धामप्रियमेवास्य धामपात्मविता वैहृतगं रभावहव्यैनेन परिहत्रे पाञ्चजह्नेष्व य्या हेषवा अग्न पांच न्याय पंचजेकस्मर्तव्या उपल्वा ऋतू प्रियम धर्तव्यामे प्रियंध धा वरुंधे सुन गयी सुने संवत्सव प्रियंध धा प्रजापतेनक्षश्व यत्तत्परापदत्तदश्वो भवद्यदश्वयत्तदश्वस्याश्वतन्त्रेवा अश्वमेधेनैव प्रत्यगुरेध वै प्रजापतिम् सर्वम् करोति योऽश्वमेधेन यजदेश सर्वगेव भवति सर्वस्य वाये प्रायश्चित्ति सर्वस्य भेदजगम् सर्वम् वायेतेन पा देवा अदरन्नपि वादेतेन ब्रह्महत्यामदरन् सर्वम् पापानन्तरतिरहति ब्रह्महत्याञश्वमेधेन यजते यौतेन वेदोत्तरम् वैतत्प्रजापते रक्षस्व यत्तस्मादश्वस्योत्तरतोपद्यन्दिक्षिणतोन्येनाम् वशूनाम् वैतसः कपा भवत्यक्षुजोर्वा स्वाक्षुजो वेदसस्वगेवैदन्यो प्रतिष्ठापयदेतस्तोमस्तोमो भवति शरडवा श्वस्य रक्षा बृहत्तद्देवाश्च दृष्टो